नाम सर्वेभ्यः अस्माकं योगनिष्टजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्य एकः मुख्यः विषयः अस्ति शूद्रतः कथं महान् भवितुम् अर्हामः इति विषयः यथा गतसप्ताहे भवती उक्तवती हा मनुष्य सर्वदा अहङ्कारः वर्तते अहङ्कारः अस्ति किञ्चिदेव वयं वा जानीमः बहु किमपि न जानीमः यस्य कस्यापि विषयः भवतु नाम अस्माकं ज्ञानं सम्पूर्णं नास्ति किञ्चित् किञ्चिदेव वयम् वा अवगच्छामः तथापि अस्माकम् अहङ्कारः भवति अहं बुद्धिमान् अस्मि अहं बुद्धिमती अस्मि अहं पण्डितः अस्मि मयि पाण्डित्यं वर्तते अहं शक्तिशाली शक्तिशालिनी इति एवं रीत्या अस्माकम् अहङ्कारः वर्तते सर्वदा वर्तते यद्यपि वयं सर्वज्ञाः न तथापि परन्तु परमात्मनः एव अस्माभिः प्राप्ता विद्या प्राप्ता बुद्धिः प्राप्ता शक्तिः सः एव तस्य एतेषां सर्वेषां स्वामी वर्तते तथापि वयं चिन्तयामः वयमेव एतेषां स्वामिनः इति तर्हि वयं जानीमः अस्मिन् लोके पाञ्चभौतिकजगत् यत् वर्तते तस्मात् एव वयं अन्नं स्वीकुर्मः जलं स्वीकुर्मः वायुः स्वीकुर्मः यैः यैः अस्माकम् ऊर्जा भवति शक्तिः भवति एनर्जि आगच्छति यदा एनर्जी आगच्छति आगच्छति तदानीं वयं वदामः इदं मम इदं मम इदं मम इदं मम इति एव सर्वदा वदामः यत्किमपि वयं पश्यामः इदं मम इदं मम इदं मम तर्हि यदि वयं चिन्तयामः यदि वयं भोजनं त्यजामः दिनद्वयं दिन दिनत्रयपर्यन्तं भोजनं त्यजामः तदानीं कुत्र गच्छति इयं बुद्धिः कुत्र गच्छति इयं शक्तिः कुत्र गच्छति इयं विद्या कुत्र गच्छति पाण्डित्यं तत्र यदा वयं पाञ्चभौतिकः जगतः पाञ्चभौतिकजग जगतः अन्नं स्वीकुर्मः जलं स्वीकुर्मः वायुं स्वीकुर्मः तदानीमेव अस्माकं शरीरं तिष्ठति यदा शरीरं शरीरे ऊर्जा आयाति तदानीं वयं सर्वेषां सर्वं यदस्ति तस्य स्वामित्वं स्थापयितुम् इच्छामः अस्माकम् अहङ्कारः अस्ति तर्हि यः यह, यः यः अहङ्कारी वर्तते सः मूढः इदानीं पश्यतु एक एकम् उदाहरणं वदामि अत्र कश्चन अत्र पुरुषद्वयं वर्तते अनयोः मध्ये स्नेहः वर्तते परस्परं मित्रता वर्तते तर्हि एकस्मिन् एक दिने एकः द्वयोः मध्ये एकः तत्र तस्य सूट् तत्र वस्त्रमस्ति तद् स्वीकरोति अन्यस्मात् तर्हि तस्य धारणं कृत्वा सः क्लब् मध्ये गच्छति क्लब् मध्ये यत्र जनाः भवन्ति तत्र गच्छति गत्वा सः वदति ओ इदं सूट् मम इदं वस्त्रं मम अस्ति मया धनं दत्वा एतद् क्रीतं तदनन्तरं एतद् एतत् बहु सुन्दरम् अस्ति एतत् मम अस्ति इति सः वदति अन्यान् दृष्ट्वा तदानीं यदि चिन्तयतु येन पुरुषेण एतद् सूट् दत्तं यदि सः पुरुषः पृष्ठतः एव कुत्रचित् गुप्तरूपेण स्थित्वा एतत् शृणोति तस्य मित्र मित्रमित्रम् एवं वदति इति सः शृणोति गोढरूपेण तदानीं सः किं चिन्तयति सः चिन्तयति वस्तुतः तस्य क्रोधः भवितुमर्हति अथवा सः हसति मम मि मित्रता अस्ति इति कृत्वा प्रायः क्रोधः न आयाति सः हसति किमर्थं मम मि मम मित्रम् एवं वदति इति सः हसति एवमेव यत्र कुत्रापि वयं गच्छामः परमात्मा तु सर्वदा अस्ति एव पृष्ठतः सः सर्वदा अस्ति सः एव आधारः अस्ति तर्हि यत्र कुत्रापि वयं गच्छामः तत्र गत्वा इयं विद्या मम इयं बुद्धिः मम इयं शक्तिः मम इदं वस्तु मम इति यदा वयं वदामः तदानीं परमात्मा अपि अस्माकं पृष्ठतः स्थित्वा हसति पश्यतु अयं बालकः मम पुत्रः प्रत्येकं प्रत्येकं वस्तु तस्य इति वदति सः इति श्रुत्वा तत्र परमात्मा अपि हसति वस्तुतः सः स्वामी नास्ति प्रत्येकं वस्तुनः मनुष्यः तु स्वामी नास्ति तथापि स्वामित्वम् अध्यारोपयति सर्वत्र तरी पत् एक दृष्टि वस्तु हसती अतर कथम अस्क कथम जीवन अस्म जीवनीय अस्कं कर्तव्य किस्ती यस्तू स स्वामी यः वर्तते तस्य कृते एव अस्माभिः एतेषां सर्वेषां व्ययः करणीयः बुद्धिः भवतु शक्तिः भवतु विद्या भवतु अथवा यत्किमपि भवतु तस्य परमात्मनः परमात्मनः परमात्मनः कृते सेवार्थम् अस्माभिः एतेषां सर्वेषां व्ययः करणीयः तर्हि तस्मात् एव अस्माकं शक्तिः लब्धा इति कृत्वा अस्माभिः जनसेवा करणीया विद्या भवतु बुद्धिः भवतु शक्तिः भवतु एतेषाम् उपयोः उपयोगः कथं करणीयः इति चेत् बृहत् बृहत् अस्ति तस्य कृते स्वामू सामूहिकस्वार्थार्थम् अस्माभिः एतेषां व्ययः करणीयः यकम की अहम कह बृहत यहाँ अस्त तर कृते अहम कौमी मनव सज मनव सजा अहम यहाँ कृते नास् व्यर्थ न कमी सामूहिकवार्थम अहम कौमी न स्वा कौमी अहम बृहत् बृहत्समे अहम अस् अहं यत्किमपि करोमि बृहत् समाज् यदस्ति तस्य कृते एव अहं करोमि वयं जानीमः यथा वयं चिन्तयामः तद्वत् वयं भवामः इति अस्माभिः चिन्त्यते आरम्भदिनात् मनसि यादृशभावना तथैव वयं भवामः तर्हि यदि वयं चिन्तयामः अहं पापी अहं पापी अहं पापी अहं पापी इति प्रतिदिनं चिन्तयामः तदानीं वयं पापी एव भवामः यदि वयं चिन्तयामः अहं साधु अस्मि अहं साधु अस्मि अहं साधु अस्मि इति एतादृशी भावना वर्तते तदानीं वयं साधु एव भवामः अतः यादृशी भावना यस्य सिद्धिर्भवति तादृशी अतः वयं बहु मुख्यविषयः अस्ति अस्माकं भावना कीदृशी अस्ति कोऽपि पुरुषः अहं चौर्यकार्यं करोमि करोमि करोमि इति केवलं मनसि चिन्तयति कदापि न करोति शारीरिकरूपेण चौर्यकार्यं न करोति परन्तु मनसि सर्वदा चिन्तयति अहं चौर्यकार्यं करोमि करोमि करोमि इति चिन्तयति चेत् तर्हि तर् अन्ततो सः एवमेव भवति अन्ततो गत्वा वस्तुतः चौर्यकार्यं करोति अतः भावनायाः महत्त्वं वर्तते अस्माकं मनः एकस्मिन् क्षणे कुत्र अस्ति इति वयं एकस्मिन् दिने वयं परिशीलयामः चेत् वयं ज्ञातुं शक्नुमः अस्माकं मनसि कुत्र प्राधान्येन लग्नता अस्ति कुत्र चिन्तनम् अस्ति तदनुगुणं वयं निर्धारयितुं शक्नुमः अस्माकं जीवनं पशु पशुदिशि गच्छति वा मानवदिशि गच्छति वा इति वयं ज्ञातुं शक्नुमः अस्माकं समीपे यत्किमपि अस्ति तस्य इत्युक्ते अस्माकं सविधेयी यानि वस्तूनि सन्ति तेषाम् उपयोगः कतम करणीयः इति चेत् तत्र परमात्मनः कृते करणीयः सामूहिकस्वार्थार्थं करणीयः न तु वैष्टिकस्वार्थार्थं यदा स्वामू सामूहिकस्वार्थार्थम् एतेषां वस्तूनां विद्या भवतु शक्तिः भवतु बुद्धिः भवतु एतेषां व्ययः यदा भवति तदा तदानीं भावना आयाति मनसि यदा भावना आयाति तत्र परमात्मा भवति परमात्मा इत्युक्ते कः सः तु अत्र अत्र जगतः पाञ्चभौतिकजगतः सः सह, एव सर्वत्र व्याप्तः वर्तते सः मूहिकस्य एव सः व्यक्तीकरणम् अस्ति अतः स्वामूहि सामूहिकस्वार्थार्थं यदा वयं कार्यं कुर्मः तदा तदा अस्माकं मनसि बृहतः भावना भवति तर्हि तस्य फलं इति चेत् ए एतादृशभावना यदा सर्वदा भवति तदानीम् एकस्मिन् एकस्मिन् दिने वयं परमात्मनः परमात्मा भवामः यदा परमात्मनः भावः अस्ति परमात्मनः भावना अस्ति तदा वयं ब्रह्म एव भवामः इण्डिविजुवल् एक्सिस्टेन्स् इस् ट्रान्स्फ़ार्म्ड् इन् परमात्मा परन्तु यदि मनुष्यः तथा न करोति केवलं वैष्टिकस्वार्थार्थं सः कार्यं करोति तर्हि सः किं भवति इति चेत् सः क्षुद्रः भवति सः पशु भवति तस्य मनः पतति तस्य मनसः अधोगतिः भवति किमर्थम् इति चेत् स्वार्थस्य कारणं यदि वयं यत्किमपि कुर्मः व्य व्यष्टिगतस्वार्थार्थं कुर्मः इदानीं इदानीं वयं चिन्तयामः अहम् एवं करोमि अहम् एवं करोमि अहम् एवं करोमि मम कृते अहम् एवं करोमि एवं करोमि एवं करोमि एवं करोमि इति एवं सर्वदा चिन्तनं मम कृते मम कृते मम कृते इति तदानीं किं भवति इति चेत् जडस्य भावना मनसि आयाति तर्हि यदा जडस्य भावना आयाति तदानीं मनः मनस् मनसः अधोगमनं भवति तर्हि पशुमार्गे गमनं भवति तर्हि मनुष्यः क्षुद्रः क्षुद्रः भवति यदा सामूहिकस्वार्थार्थं धनस्य व्य व्ययः व्ययं कुर्मः तदानीं परमात्मनः परमात्मनः भावः आयाति तदानीं धनस्य भावना मनसि आयाति स्वस्य कृते यदा व्ययः भवति ओ इदानीम् अहम् एतद् अस्य तस्य क्रयणं करोमि अस्य वस्तुनः क्रयणं करोमि पुनः अस्य वस्तुनः क्रयणं करोमि मम कृते एवं करोमि इति चेत् स्वार्थभावना अस्ति परन्तु यदा धनस्य विषये अपि यदा अहम् अस्य धनस्य व्ययः सामूहिकविषये करोमि इति भावना यदा आयाति तदानीं तादृश तद् तदानीं तत्र जडभावना नास्ति तादृशभावना तु परमात्मनः भावना एव यद्यपि तत्र धनस्य सम्बन्धः अस्ति तथापि धनं मम नास्ति तदपि अन्येषां कृते इति एतादृशभावना एव सामूहिकभावना यदा सामूहिकभावना भवति तर्हि परमात्मा तत्र तिष्ठति यदा सर्वेषां कल्याणार्थं वयं प्रयासं कुर्मः तदानीं तत्र तु परमात्मा अस्ति यतो यतो हि परमात्मा सर्वेषां कल्याणकारी अस्ति परमात्मा यत्किमपि करोति सर्वेषां हितमस्ति चेदेव करोति यत्किमपि करोति यद्यपि अस्माकं दृष्ट्या तद् हानिकारकम् इति भासते परन्तु किमर्थं सः करोति इति चेत् इदं जगत् एव एकं किं विश्वविद्यालयः विद्यालयः अस्ति येन अस्माकं बोधः भवतु शिक्षणं भवतु यदि वैयष्टिकस्वार्थार्थं वयं कार्यं कुर्मः तदानीम् अस्माकम् अहङ्कारस्य वर्धनं भवति अहङ्कारस्य वर्धनं भवति चेत् अधोगतिः अवश्यमेव भवति अतः अस्मिन् जगति यत्किमपि वस्तु अस्ति तद् मम परमात्मनः एव अस्ति बुद्धिः शक्तिः विद्या यत्किमपि भवतु अथवा लौकिकजगति यद्वस्तु तस्य तस्य तेषां सर्वेषां स्वामित्वं इदानीम् इदं वस्तु मम अस्ति अद्य परन्तु श्वः मम भवति इति तत्र निर्णायकं किमपि नास्ति श्वः मम भवितुमर्हति नापि भवितुमर्हति यदा मृत्युः आयाति तदानीं तु तद्वस्तु मम सविधे न भवति यत् सर्वं त्यक्त्वा एव मया गन्तव्यं मृत्युकाले विद्या नष्टा भवति बुद्धिः अपि नष्टा भवति शक्तिः नष्टा भवति यद् वस्तु अस्ति तदपि नास्ति मम पार्श्वे यदा मया गन्तव्यं तर्हि वयं सर्वे जानीमः एकस्मिन् दिने दिने अस्माकं मृत्युः अवश्यं भवति इति वयं जानीमः तर्हि प्रकृतिः सर्वम् अस्माकं सविधात् सर्वं स्वीकरोति सर्वं, सर्वं हरति तर्हि यद् इदानीम् अस्ति मम यद्यपि अहम् इच्छामि वा न इच्छामि वा यद् मम सविधे अद्य अस्ति श्वः तद् मम सविधे भवति कोऽपि पुरुषः यदि साधकः अस्ति सः तु सः हसति मरणसमये सः हसति सर्वं त्यक्त्वा सः ग गच्छति परन्तु हसित्वा हसित्वा सः गच्छति परन्तु यः पुरुषः साधकः नास्ति तर्हि तस्य वैराग्यभावः नास्ति लोके रागभावः अस्ति तर्हि यदा एतत् सर्वं त्यज त्यक्त्वा यदा गन्तव्यं तदानीं सः तु रोदिति खलु एतत् सर्वं मया त्यक्तव्यं त्यक्त्वा गन्तव्यम् इति तस्य इच्छा न भवति तर्हि एतत् सर्वम् अनन्तकालपर्यन्तं यद् दत्तं किञ्चित् कालपर्यन्तं भवान् कार्यं करोतु इति कृत्वा परमात्मनः परमात्मना एतत् सर्वं दत्तं तर्हि एतेषाम् उपयोगः अस्माभिः कथं करणीयम् इति चेत् समूहसुखार्थं यदा वयं कुर्मः तदेव बुद्धिमान् तत्रैव बुद्धिमत्ता वर्तते या शक्तिः वर्तते तस्य उपयोगः सुकार्तम वयं कुर्मः तत्रैव अस्माकं बुद्धिमत्ता वर्तते यदि अस्माकं सविधे बहुधनं बहुधनं वर्तते तर्हि वयं जानीमः किञ्चित् कालानन्तरं तत्र सर्कारः यः अस्ति सः अस्माकं सविधात् हरति इति वयं जानीमः तदानीं वयं कुर् किं कुर्मः इति चेत् झटिति किमपि तत्र कस्यचित् कल्याणार्थं वयं तस्य व्ययं कुर्मः यतोहि वयं जानीमः तत्र सर्कारः यः अस्ति सः एतत् सर्वं स्वीकरोति इति एवम् अस्माकं सविधे या बुद्धिः विद्या शक्तिः वर्तते एतासां सर्वासा सर्वासामपि हरणं प्रकृतिः अवश्यं करोति एकस्मिन् दिने तर्हि इदानीम् अस्ति श्वः भवति वा न वा इति न जानीमः तर्हि इदानीं यदस्ति तस्य प्रयोगः बहु अधिकम् अस्माभिः करणीयम् अधिकप्रयोगः करणीयः इत्युक्ते मेक्सिमम् यूटिलैज़ेशन् करणीयः परमात्मा किं वदति एतत् सर्वम् अहं ददामि भवान् एतस्य उपयोगं करोतु परन्तु यदा लोकात् गच्छति तदानीम् एतत् प्रति दातव्यं प्रत्यर्पणीयं किमपि गृहीत्वा न गन्तुं शक्नोति तर्हि एतत् सर्वं ऋणमस्ति यत् परमात्मा ददाति अस्माकं कृते बुद्धिः शक्तिः विद्या एतत् सर्वं ऋणमस्ति यदा गन्तव्यं तदानीं प्रत्यर्पणीयम् अतः ऋणमस्ति चेत् मम इति वक्तुं न शक्नुमः खलु य अस्मिन् जगति परमात्मा एव जलं ददाति अन्नं ददाति वायुमपि ददाति तद् कार कारणेन एव अस्माकम् का अहङ्कारः वर्तते यदि एतत् सर्वं नास्ति इदानीं जगति एतत् सर्वम् उपलब्धं नास्ति इति चिन्तयतु तदानीं वयं जीवितुं शक्नुमः वा तदानीं कुत्र गच्छति बुद्धिः कुत्र गच्छति विद्या कुत्र गच्छति शक्तिः तर्हि सः एव स्रोतः अस्ति यस्मात् एतत् सर्वं लब्धं खलु अतः किमर्तम अहङ्कारः अहङ्कारः त्यक्तव्यः खलु यदि यदि मम अहमेव स्वामी अस्मि तत्तु भिन्नवार्ता परन्तु अहं स्वामी नास्मि परन्तु वयं चिन्तयामः अहं स्वामी अस्मि इति वयं चिन्तयामः तावदेव इति अस्माकं भ्रमः अस्ति वास्तविकं यदा वयं जानीमः वास्तविकसत्यं यदा वयं जानीमः तदानीं वयम् अवगच्छामः यत् एतत् सर्वं मम नास्ति एव एतत् सर्वं मम अस्ति इति मम भ्रमः अस्ति अतः एतादृशभावना तर्हि अस्माकं मनसि कीदृशभावना भवेत् इति चेत् तर्हि सर्वदा अस्माकं मनसि एतादृशभावना भवेत् यत् सामूहिककल्याणं भवेत् सामूहिककल्याणं भवेत् यत्किमपि अहं करोमि तस्मिन् सामूहिककल्याणं भवेत् अहम् इदानीं किमपि करोमि तत्र सामूहिककल्याणं भवेत् तर्हि इदानीं प्रश्नः भवितुमर्हति अहम् अन्नं स्वीकरोमि खलु तत्र कथं सामूहिककल्याणम् इति चेत् तत्रापि ब्रह्मभावना ब्रह्मभावनायाः अध्यारोपः यत्किमपि अहं करोमि ब्रह्मणः कृते एव अहं करोमि भोजनम् आवश्यकमस्ति भोजनं न स्वीकुर्मः जीवितुं न शक्नुमः अतः यद् भोजनमहं स्वीकरोमि तदपि ब्रह्मणः कृते एव तदपि सामूहिककल्याणार्थम् एव मम जीवनम् एव सामूहिककल्याणार्थम् इति एतादृशभावना यदा भवति तत्र परमात्मा अवश्यं भवति एतादृशभावनया एकस्मिन् दिने वयं स्वयं परमात्मा बृहत् भवामः इति मनसि सर्वदा स्थापनीयम् एतादृशभावना नास्ति चेत् स्वार्थभावना सर्वदा वर्तते चेत् वयं क्षुद्रः भवामः अस्माकं मनः पतति अग्रगतिः कदापि न भवति पुनर्जन्मचक्रे वयं पतामः इति अद्यतनविषयः अस्ति अत्र किमपि वक्तव्यं वा भगिनी भगवद्गीतायाम् एकश्लोकम् अस्ति यत् करोषि यत् यत् करोषि यत् अश्नासि यत् जहासि ददासि यत् यत् तपस्यसि तत् कुरुष्व मदर्पणं कौन्तेय सम्यक् भगिनि सम्यक् उचितम् उचितमस्ति प्रसङ्गासङ्गिकमस्ति एवम् एवमेव एव, एव, करणीयम् यत् यत्किमपि कुर् कुर्मः समर्पणबुद्ध्या अस्माभिः करण् करणीयं तदेव तत्र प्रपत्तिः इति वयं वदामः खलु प्रपत्तिः इत्युक्ते अत्र प्रपत्तिवादः इत्युक्ते अस्मिन् जगति यत्किमपि भवति तत्सर्वं परमात्मनः इच्छया एव भवति अ ब्लेड् आफ् ग्रास् आल्सो डस् नाट् मूव् वितौट् हिस् विश् इति भावना यत्किमपि करोति तस्य इच्छया एव भवति अतः किमर्थम् अहङ्कारः अतः यत्किमपि कुर्मः समर्पणबुद्ध्या कुर्मः चेत् तदानीं सः अस्माकं यद्यद् आवश्यकं तत् ता, सः तस्य विषये चिन्तां करोति किमर्थम् अस्माभिः तस्य विषये चिन्ता करणीया सः करोति अस्माकं कृते किम् आवश्यकं जीवितुं किमपि यत्किमपि आवश्यकं सः अवश्यं ददाति तत्र चिन्ता एव नास्ति तर्हि किमर्थं चिन्तनीयं यदस्माकं कृते आवश्यकं सः ददाति तर्हि किमर्थं वयं चिन्तनीयम् अस्माकं कृते अन्येषां कृते वयं चिन्तयामः तर्हि अस्माकं कृते यद् आवश्यकं सः चिन्तयति खलु यतोहि वयमपि सामूहिके एव वयम् वयं स्मः अतः अस्माकं कल्याणार्थं सः चिन्तयति वयं तु तस्य ये पुत्राः पुत्र्यः सन्ति तेषां विषये वयं चिन्तयामः सामूहिककल्याणार्थं वयं चिन्तयामः तर्हि अग्रगतिः अवश्यमेव भवति अस्तु एतदुक्त्वा अस्माकं करपत्रं प्रति गच्छामः वा तर्हि अस्माकं विषयः आसीत् कथम् अस्मिन् जगति मनुष्याः जीवेयुः इति तर्हि इदानीम् अहं स्क्रीन् शेर् करोमि क्षणम् अत्र अस्माभिः तावत्पर्यन्तं प्राप्तमासीत् इत्युक्ते अत्र अस्मिन् जगति मनुष्याः सर्वदा किमपि कुर्वन्ति किमपि अकृत्वा स्थातुं न शक्नोति किमपि कुर्वन्ति कर्म कुर्वन्ति यदा कर्म कुर्वन्ति तदानीं कर्मफलम् अवश्यं तेन पुरुषेण भोक्तव्यं तेन मनुष्येन भोक्तव्यं तर्हि इदानीम् अत्र अस्माभिः गतवर्गे चर्चितं यत् मनुष्याः कर्मफलं यद् कर्मफल यद् कर्मफलं पापरूपेण अस्ति तद् भोक्तुं न इच्छति सुखरूपेण अस्ति चेत् भोक्तुम् इच्छति पापरूपेण अस्ति चेत् भोक्तुम् न इच्छति अतः तस्य निवारणार्थं बहु प्रयासं कुर्वन्ति तत्र गृहशान्तिं कुर्वन्ति अथवा तत्र रत्नानां ग्रहणं कुर्वन्ति इति एवं रीत्या बहु किमपि कुर्वन्ति परन्तु अस्माभिः दृष्टं यत् यत्किमपि करोतु नाम तेन कर्मफलस्य निवारणं न शक्यते केल केवलं काल अवधि कालावधिः यः अस्ति अवधिः अस्ति तस्य एव दूरीकरणं कर्तुं शक्नुमः अथवा झटिति कर्मफलस्य भोगः भवति अथवा किञ्चित् कालानन्तरं भवति इति एवम् एवं रीत्या एव वयं कर्तुं शक्नुमः परन्तु कालावधिः य कालावधिः यः अस्ति तस्य लघ्वीकरणं कर्तुं शक्नुमः अथवा तत्र किञ्चित् कालानन्तरं तस्य व्ययः भवितुमर्हति तावदेव वयं कर्तुं शक्नुमः परन्तु सम्पूर्णतया तस्य निवारणं कर्मफलस्य निवारणं न शक्यते इति अस्माभिः दृष्टम् इदानीं ततः अग्रे गच्छामः अग्रिम इदानीं अग्रिमपृष्ठे तर्हि किं सुचित्रग्नि पठति वा आम् अनुसृत्य ततः एव वस्तुतः भाग्यम् अथवा प्रतिक्रियाणां कर्मफलानाम् अनुभवं कदापि परिवर्तयितुं न शक्यते केवलं प्रतिक्रियाणाम् अवधीन् एव परिवर्तयितुं शक्यते अत एव ये मुक्तिप्राप्ति अभिप्रायेण साधनां कुर्वन्ति ते शीघ्रम् हर्षः दुःखं च सुखं वेदना च अनुभवन्ति अनेन ते अल्पकाले यथासम्भवं प्रतिक्रिया अनुभवं कुर्वन्ति ये मोक्षकामिनः मुक्तेः ते अस्मिन् जीवने एव प्रतिक्रियाणाम् अनुभवम् इच्छन्ति अतः ते स्वेषां सम्भाव्यप्रतिक्रिया अनुसारेण संस्कारैः शीघ्रमेव सर्वम् अनुभवन्ति अनेन भविष्यजीवने किमपि न अवशिष्टं भवति ते च मुक्तिं प्राप्नुवन्ति यदा वयं चर्चां कृतवत्यः न पूर्वस्मिन् कक्षायाम् अपि तत्र कर्मस्य कर्मफलं भवति तत् अनुभोक्तव्यमेव तत्र किमपि कर्मफलात् पलायनं कर्तुं न शक्यते तत्र अनुभवं करणीयं यत्किमपि वयं प्रायश्चिक वा परिहाररूपेण कार्यं कुर्मः तत् सर्वं तु केवलं प्रतिक्रियाणां किमस्ति यद् कालस्य एव तत्र अवधिमेव किञ्चित् परिवर्तयितुं शक्यते परन्तु न तु कर्मफलस्य किमपि परिहारं न भवति अतः यद् कर्मफल अस्ति तस्य अनुभवं करणीयम् एव केवलम् अवधिम् इत्युक्ते द्विरेषन् एव तत्र किमपि परिवर्तयितुं शक्यते ये जनाः तु इदानीं साधनामार्गे भवन्ति अथवा मुक्ति अभिप्रायः अस्ति वा मोक्षाभिप्रायः अस्ति ते साधनां कुर्वन्ति ते जनाः यत्किमपि कर्मफलस्य अनुभवमपि शीघ्रमेव प्राप्नुवन्ति तस्मिन् जीवने एव प्राप्नुवन्ति जनाः प्रायण वक्तुं वयं दृष्टवन्तः ये जनाः साधुजनाः सन्ति परन्तु तेषां जीवने अपि अनेकानि दुःखानि सन्ति अनेकानि किमस्ति भौतिकदुःखं वा भौतिकसुखं वा तादृशं किमपि भवितुम् अर्हति परन्तु ये साधनम् आगच्छन्ति तेषां चिन्ता तु तस्मिन् विषये न भवन्ति कुतः इत्युक्ते तेषां तु इदानीं ते सर्वदा परमात्मनि एव तेषां चिन्तनं वर्तते अतः ते न चिन्तयन्ति परन्तु यत्किमपि तस् तेन किमस्ति पूर्वसंस्कारः तेषां वर्तते तस्य तु अनुभवं भवति अतः ते तस्मिन् जीवने एव ते सर्वं प्राप्नुवन्ति सुखं वा दुःखं भवतु नाम अतः प्रतिक्रियाणाम् अनुभूतिः यदा तस्मिन् समये एव शीघ्रमेव अनु प्राप्नुवन्ति जनाः वदन्ति किमर्थं ते तु सज्जनाः सन्ति परन्तु एते एतत् सर्वं दुःखं तेषां जीवने कथं सन्ति परन्तु जनाः न जानन्ति प्रायेणपृष्ठे किं प्रचलन् अस्ति इति अतः अतः यत् किमपि जीवनी आगच्छति तस्य तु सत्कारः एव करणीयं न तु कदाचित् दुःखं न अनुभोक्तव्यं किमर्थम् अहम् एतादृशदुःखम् अनुभवामि वा वेदनाम् अनुभवामि वा तत्सर्वं भौतिकम् अस्ति क्षणिकमेव अस्ति यत्किमपि वयं कृतवत्यः तस्य एव इदानीं प्रतिक्रियारूपेण तद् सर्वम् आगच्छति अतः तादृशं चिन्तनं भूत्वा यत्किमपि आगच्छन्तु नाम यद्भवती उक्तवती समर्पणरूपेण यद् प्राप्तं तद् परमात्मनि एव तद समर्पणं कृत्वा यदनुभोक्तव्यं तस्य कृते यद् किमपि शक्तिम् आवश्यकं तद् सः तद एव ददाति तस्मिन् विषये अस्माकम् अधिकं किमपि चिन्तनं न कथनीयं परमात्मनि एव अस्माकं चिन्तनं लग्नं भवेयुः तदेव भगिनी बहु समीचीनं भगिनी उत्तमं बहु सम्यक् सम्यक् आसीत् तर्हि हा यथा पूर्वं चर्चितं मनुष्याः बहु किमपि कुर्वन्ति तत्र कर्मफलस्य कर्मफलानां निवारणार्थं परन्तु अन्ततो गत्वा ज्ञातव्यं यत् कर्म कोऽपि कर्म करोति चेत् तस्य फलम् अवश्यं भवति तेन अनुभोक्तव्यम् एव तस्मात् बहिः आगन्तुं जनाः प्रयासं कुर्वन्ति परन्तु तेषां परिवर्तनं कदापि न शक्यते यतोहि यम प्रकृतेः नियमः अयं प्रकृतेः नियमः वर्तते तर्हि तर्हि सम्पूर्णतया किं परिवर्तयितुं शक्यते इति चेत् केवलं केवलं साधनया एव सम्पूर्णतया कर्मफलानां नाशः भवितुमर्हति यदा कोऽपि साधकः वर्तते सः साधनां साधनां करोति आध्यात्मिकमार्गे अस्ति सः किम् अनुभवति इति चेत् सः शीघ्रमेव शीघ्रं शीघ्रमेव सुखदुःखानां अनुभवं प्राप्नोति तर्हि साधनायां सः अन्ततो दग्धबीजावस्थां प्राप्नोति यदा यत्र तेषा तस्य सर्वेषां संस्काराणां सम्पूर्णतया नाशः नाशः भवति सम्पूर्णतया त तेषां नाशः भवति तादृशावस्थां प्राप्नोति अतः एव साधकः यदा सः साधकः साधनां करोति तर्हि झटिति झटिति सुखदुःखानां अनुभवं प्राप्नोति तर्हि तस्य यदा सः सामान्यतया किं यह, भवति यः यः पुरुषः साधकः नास्ति तस्य कृते किं भवति इति चेत् यानि कर्मफलानि सन्ति यानि इत्युक्ते ये संस्काराः सन्ति तेषां भोगः कर्मफलरूपेण भवति अस्मिन् जन्मनि वा अग्रिमजन्मनि वा इतो इतोपि अग्रे कदाचित् तर्हि यदा अभुक्तप्रतिक्रियाः सन्ति तदानीं तस्य पुरुषस्य पुनर्जन्म अवश्यं भवति तदनुगुणं तस्य जन्म भवति अतः यत्र तादृशसंस्काराणाम् अनुभवः भवितुम् अर्हति तादृशपरिस्थितौ तस्य पुनर्जन्म भवति परन्तु यः साधकः अस्ति साधनां करोति यः सर्वदा परमात्मनि परमात्मनि विलीनं विलीनं विलीनः वर्तते तर्हि तस्य तस्य मनः मनसि अग्रगतिः भवति तस्य मनः इतोपि सूक्ष्मः सूक्ष्मः सूक्ष्मः सूक्ष्मं भवति सूक्ष्मं भवति तर्हि तत्र किं भवति इति चेत् तस्य इदानीं मया उक्तं तस्य ये याः अभुक्तप्रतिक्रियाः अर्थात् संस्काराः ये सन्ति ये संस्काराः सङ्गृहीताः अस्मिन् जन्मनि पूर्वस्मिन् जन्मनि ये संस्काराः सङ्गृहीताः तेषां सर्वेषां नाशः भवति तेषां सर्वेषां दहनं भवति यदा तेषां दहनं भवति तदानीं दग्धबीजावस्थां सः साधकः प्राप्नोति तर्हि यदा यदि यदि पुरुषः यदि मनुष्यः साधकः अस्ति तदानीं तत्र प्रकृतिः किं करोति इति चेत् प्रकृतिः तादृशव्यवस्थां करोति येन सर्वेषां संस्कारार्थं संस्काराणाम् अनुभवार्थं तादृशपरिस्थितिं स प्रकृतिः निर्माति परिस्थितिः निर्माति येन झटिति झटिति सुखदुःखानाम् अनुभवः भवति तर्हि अतः तर्हि इत्युक्ते ये जनाः योगनस्य जीवने योगनस्य जीवनस्य पालनं कुर्वन्ति तर्हि ये जनाः साधनां कुर्वन्ति परमात्मनः विषये बहु बहु, बहु चिन्तयन्ति तेषां कृते संस्काराणां विषये चिन्तनस्य आवश्यकता नास्ति यतोहि तेषां संस्काराणां दहनं शीघ्रमेव भविष्यति तर्हि तत्र मनुष्यजीवनस्य लक्ष्यं तु परमात्मनः साक्षात्कारः एव मनुष्यजीवनस्य लक्षणं तर्हि साधकः यः अस्ति परमात्मनः प्राप्त्यर्थं सः बहु उत्सुकः वर्तते तर्हि तस्य उत्सुकतायाः फलं किम् इति चेत् परमात्मा अपि अनुगृह्णाति परमात्मा अपि कृपां ददाति येन तदर्थमेव प्रकृतिः झटिति झटिति तस्य संस्कारस्य नाशार्थं प्रकृतिः अपि सहकरोति तर्हि यः साधकः अस्ति तस्य मनसि स्वेच्छा नास्ति इत्युक्ते स्वस्य कृते इच्छा नास्ति इत्युक्ते स्वेच्छा इत्युक्ते तत्र मानवधर्मस्य पालनं कर्तुं स्वेच्छा वर्तते परन्तु स्वस्य स्वतंत्रतया इच्छाः न भवन्ति यतोहि परमात्मनः इच्छा या या इच्छा वर्तते सा एव मम अपि इच्छा इति साधकस्य जीवनं तथा तथा भवति तर्हि साधकः किम् इच्छति इति चेत् एकमेव इच्छति परमात्मा सन्तुष्टः भवतु इति तावदेव तत्तु भक्तिभावस्य परमाकाष् परमा अस्ति परमात्मनः या इच्छा वर्तते सा एव मम इच्छा परमात्मा तृप्तः भवतु सन्तुष्टः भवतु इति भावना भवति सर्वदा अहं ब्रह्मास्मि इत्युक्ते तदेव खलु मम मनसि या या यः अहङ्कारभावः अस्ति तस्य तस्य नाशः तस्य नाशः तस्य परमात्मनि विहीनता या अहङ्कार स्वतन्त्रतया यः भावः स्वतन्त्रतया यः यदस्तित्वम् अस्ति मम तस्य परा परमात्मनि विलीनम् इति एव तत्र योगः इति वयम् वदामः खलु अतः साधकस्य मनसि स्वार्थभावना नास्ति ममकृते कृते धनं भवतु मम गृहं भवतु इति इच्छाः न भवन्ति परमात्मा इच्छति तदेव मम इच्छा तर्हि परमात्मा तु सर्व कल्याणकारी अस्ति सर्वजनकल्याण कल्याणमेव तस्य लक्ष्यं परमात्मनः लक्ष्यम् अतः परमात्मा यदिच्छति तदेव मम इच्छा अपि मम स्वतन्त्रतया इच्छाः न भवन्ति तर्हि साधना यदा कोऽपि करोति साधनां करोति तदानीं स्वाभाविकतया सः पुरुषः आकर्षितः भवति परमात्मानं प्रति सः आकर्षितः भवति एवं कृत्वा कृत्वा कृत्वा अन्ततो संस्काराणां नाशः भवति तर्हि पुनर्जन्म न भवति परन्तु सः परमात्मना सह ऐक्यं प्राप्नोति इत्येव भवति तर्हि अततो गत्वा योगनिष्ठजीवनम् आनन्दजीवनम् अस्ति अत्र दुःखदायकं नास्ति योगनष्टजीवनं दुःखदायकं जीवनं नास्ति यदा स्वतन्त्रतया इच्छाः भवन्ति तदानीमेव दुःखं भवति यदि स्वतन्त्रतया इच्छाः न भवन्ति यत्किमपि अहं करोमि तत् परमात्मनः कृते करोमि इति एतादृशभावना अस्ति चेत् तदानीं दुःखस्य कारणमेव नास्ति दुःखस्य तत्र भोज इति वयं वदामः खलु तद् नास्ति वारं नास्ति मनः मनः बहु लैट् भवति खलु शितिलं भवति यतोहि मनसि वैराग्यम अस्ति परमात्मनः ऐक्यं प्राप्तव्यम् इति एव अत्र लक्ष्यमस्ति तर्हि संस्काराः झडिति झटिति संस्कारः संस्काराः संस्काराणां नाशः भवति तदर्थमेव योगनिष्ठजीवने वयं किं कुर्मः उचिताहारं निर्जलोपवासः आसनानि साधनं साधना एतत् सर्वं वयं कुर्मः अन्ततो गत्वा आत्मवोक्षार्थं जगत् हितार्थम् एव अस्माकं अस्माकं योगनिष्ठजीवनस्य लक्ष्यम् अस्ति अतः मरणम् आयाति चेदपि तत्र क्लेशः नास्ति साधकः यदा जीवति आनन्देन जीवति यदा मरणमायाति तदानीमपि आनन्देन सः मरणं प्राप्नोति यतोहि तत्र सः जानाति यदि परमात्मा इच्छति मम मरणं भवतु इति तर्हि तदपि भवतु मम मम कोऽपि क्लेशः नास्ति इदानीं जीवामि तर्हि सन्तुष्टेन जीवामि आनन्देन जीवामि यदा मरणं भवति तदानीमपि सा सा स्थितिः एव भवति तदानीमेव तदानीमपि परमात्मनः चिन्तनमेव भवति इति अत्र आरम्भतः वयं चर्चां कुर्मः कुर्वन्तः स्मः खलु अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः केचन मन्यन्ते यत् अशुभकर्मीता ये परिणामाः सन्ति ते तेषां शक्तिपूर्ति वा प्रक्षालनं सत्कर्मभिः अर्जितेन सत्फलैः भवति इति तेषां मते यदि दुष्कृतं सत्कर्म सनम सै तरी कि अवशिष्टम नवे अर्थ न संभवती शुभ अशुभा सर्वाणी कर्मा मनसी विकृ विकृति जनयती पूर्व दृष्ट मनसापति सन विपरीत प्रतीक्रिया द्वारा निष्का अतः दुष्कर्मभिः जन्या विकृतिः दूरी अूरीकर्तुं न शक्यते यतः तानि केवलं मनसि अधिकम् विकृतिम जनयन्ति प्रत्येकम् कर्मणः स्वतन्त्र स्वतन्त्रा समाना विपरीता च प्रतिक्रिया भवेत् यदा प्रत्येकम् विकृतिः स्वतन्त्रप्रतिक्रियाद्वारा निष्कासिता भवति शुभकर्मा पिणमा पृथक पृथक अत्या अतः दुष्टक ये दुष्टपरिण उत्पन्ना यदुखम जायते तत्खम सत्कर्म फलाना सहायन पिहर्तम न शक्य दुष्कृता दुष्परिण्मा सत्कर्माण सत्परिणमा अस्माभिः पृथक् पृथक् अनुभोक्तव्याः भवन्ति एतत् एव प्रकृतेः नियमः अस्तु पत्नी पुनः उपरि गच्छ वयम् इति चिन्तयामः यदि अहं पापकर्म कर्माणि करोमि तदानीं यत् फलं भवति तत् फलं दुःखं जनयति यदि शुभकर्माणि करोमि तत् फलं सुखं जनयति वा ये दुःख ये दुःखानि प्रतिक्रियारूपेण आगच्छन्ति तस्य निर् निर्वाणार्थं यदि अहं शुभकर्माणि करोमि तस्य निर्वाणं भवति अहं सुखी भवामि इति नास्ति ये प्रतिक्रियाः सन्ति ते अस्माभिः भोक्तव्यं भवति ते ते शुभकर्माणि प्रतिक्रिया सन्ति वा ये कर्म ये कर्मफलानि अशुभकर्माणि फलानि इति सन्ति ये के कर्म फलानि कर्मफलानि सन्ति ते अस्माभिः भोक्तव्या भवन्ति न तु इत्यस्य निवारण शुभकर्मे कर्मा कर्मणि वयं निवारितुं शक्नुमः अशुभकर्मणा कर्मणैः बहुवचने किं भवति शुभकर्मभिः कर्मभिः इति एक बिन्दु अस्ति अस्मिन् अपि यत् वयं विकृति एतत् एवं संक्षेप अहं यदि वदामि एतत् अस्ति किं भगिनि यत् वयम् अस्माकं कर्मफलानि तेषां निवारणं न कर्तुं शक्नुमः शुभकर्मैः शुभकर्मभिः इति अस्ति अपि अस्माभिः एव भोक्तव्यां भवति किन्तु अव अस्माकं चिन्तनं सदा सेवा इति कर्तव्यं किन्तु तेषां आसक्तिः न कर्तव्यम् इति अस्ति तत्र परिणामं कोऽपि परिणामम् अस्ति तस्य अस्माभिः स्वीकर्तव्यम् आमामाम् इति अस्ति अस्ति सत्यम् आम् इत्युक्ते अयं नियमः बहु सरलः अस्ति तत्र तत्र जाटिल्यं किमपि नास्ति अत्र इत्युक्ते जनाः एवं चिन्तयन्ति इदानीं मया अनुचितकर्म दुष्टकर्म दुष्कर्म कृतं किञ्चित् कालानन्तरं सत्कर्म करोमि तर्हि दुष्कर्मणः नाशः भवति इति ते चिन्तयन्ति परन्तु तथा नास्ति प्रत्येकं कर्मणः तुल्यं विपरीतं प्रतिक्रिया अवश्यं भवति तर्हि अपि अपि एवं न चिन्तयितुं शक्नुमः यद् मया यद् मया क्रियते तस्य यद् कर्मफलं भवितुमर्हति तद् अन्येन भोक्तुं शक्नुमः इत्यपि न चिन्तयितुं शक्नुमः अपि च यद् शुभकर्म कृतं तस्य यद् सुखं जायते सुखं भविष्यति सुखं तद् अग्रे यद्दुःखं भविष्यति पापेन तेन सुखेन दुःखस्य नाशः भवति इत्यपि न चिन्तयितुं दु, शक्नुमः खलु तर्हि अस्मस्य मनसि संस्थापनं सम्यक्तया भवति चेत् तदानीं क्लेशः नास्ति भ्रमः नास्ति बहु सरलः अस्ति प्रत्येकं कर्मणः तुल्यं विपरीतं प्रतिक्रिया अवश्यम् अस्ति तस्य नाशः न भवितुम् अर्हति पा, अपि पाप पुण्यकर्माणि अपि पापकर्माणि इव मनुष्यं बन्धयति बन्धनम् अस्ति इति मेबि गोल्ड् चैन् अस्ति किन्तु तदपि बन्धनम् अस्ति तत्कारणे अपि जन्म, संसारजन्म चक्रात न बहिः आगच्छति पुण्यकर्माणि तत् अपि अस्माभिः आं सामान्यतया सर्वे ज जनाः सुखिनः भवितुम् इच्छन्ति सुखात्नः सन्ति सुखमेव इच्छन्ति अतः प पापस्य दुःखस्य न निवारणार्थं यत्किमपि यद कुर्वन्ति यदि दु पापं कृतं तर्हि तस्य नाशार्थं किमपि शुभकर्म कुर्वन्ति तदर्थमेव ये बहु धनिकाः सन्ति तत्र धनस्य सम्पादनार्थम् अन्यायं कुर्वन्ति तेन पापं भवति तदनन्तरं किञ्चित् किञ्चित् दानं कुर्वन्ति अत्र तत्र किञ्चित् किञ्चित् दानं कुर्वन्ति दानं कृत्वा ते चिन्तयन्ति ओ मया यत् किं किमपि अन्यायं कृतं तस्य तेन यद् पापं लब्धं तस्य नाशः भवति इति ते चिन्तयन्ति इति तेषां भ्रमः खलु इति एवं बहुधा वयं द्रष्टुं शक्नुमः लोके तादृशजनाः बहवः सन्ति यदा तत्र यदा धनस्य सम्पादनं कुर्वन्ति ये बिस्नेस् मेन् अत्र अस्माकं भारते एवमेव कुर्वन्ति धनस्य सम्पादनार्थम् अन्यायं कुर्वन्ति जनस्य जनानां हानिः अस्ति चेदपि चिन्तां न कुर्वन्ति तदनन्तरं किं कुर्वन्ति इति किञ्चित् किञ्चित् किञ्चित् अत्र तत्र देवालयं गत्वा दानं कुर्वन्ति अथवा अन्यत्र कुत्रचित् दानं कुर्वन्ति अनाथाश्रमे अथवा कुत्रचित् दानं कुर्वन्ति तेन चिन्तयन् चिन्तयन्ति यद् मया अन्यायं कृतं तत् सर्वम् इदानीं समाप्तम् इति ते चिन्तयन्ति परन्तु तथा नास्ति इति अस्माभिः अवगन्तव्यम् अयं नियमः तु बहु सरलः अस्ति परन्तु जनानां भ्रमः अस्ति अत्र भगिनी एका कथा अस्ति गुरुनानिकस्य जीवने सः एक एकवारम् एकधनिक तं भोजनार्थं निमन्त्रणं दत्तवान् आ, किन्तु सः गुरुनानिक तत्र गतवान तत्या गृहे किन्तु तस्य सः न तिष्ठति एक आ, आ, आ, बहु साधारण मनुष्यः अस्ति यः कृषं कृषिकार्यं करोति तस्य गृहे सः गन्तुं तिष्ठति किन् यदि भोजनस्य निमन्त्रणं दत्तवान् धनिकः तत्र भोजनमपि न स्वीकरोति तद्धनिकः बहु आश्चर्यजनकः भवति अहं तुभ्याम् इति बहूनि भोजन दत्त सः लैक माल्पु इति बहु बहवः रिच् डिश् सः रच रचितवान् तस्य किन्तु सः कृषिकं वदति भवान् स्वस्य गृहस्य रोटिका आनयतु सः तत् रोटिका आनयति सः किं करोति तस्य हस्तै धनिकस्य एकं हस्तं तस्य भोजनं स्क्वीज करोति अन्यस्य कृषकस्य रोटिका स्क्वीस् करोति एक धनिकस्य रोटिकायां रक्तं बहिः आगच्छति कृष्क कृषकस्य यं भोजनमस्ति तस्मात् दुग्धम् आगच्छति तो सह तं वदति भवान यत् कार्यं करोति सः अन्यान् बहु कष् कष्टकं कश, कृत्वा तं धनं सम्पादयति अतः भवतः यत् भोजन अस्ति तत् अपि दुष्कृतमस्ति दुष् दुष्कर भोजनमस्ति समीचीनं भगिनि सम्यक् सम्यक् अस्ति सम्यक् समीचीनं धन्यवादः भगिनि समीचीनम् आम् एवमेव अस्ति समीचीनम् अस्तु तर्हि सुचित्र भगिनी श्रूयते वा कर्मणां प्रतिक्रियायाः कर्मफलस्य अनुभवः निवारयितुं न शक्यते इति युक्त्या श्लाधितम् एवमस्ति चेत् अस्माकं कर्मणां परिमाणानां विषये ईश्वरं भगवन्तं दूषयितुम् अथवा प्रार्थनाद्वारा परिणामानां सहनात् मुक्तिप्रापणं मूर्खता एव यः कर्माणि करोति तेन प्रतिक्रियाः अपि सहनीयाः भवन्ति यदि त्वं हस्त बह्नौ निमज्जसि तर्हि त्वं तं हस्तम् अवश्यमेव दहिष्यसि ईश्वरः भवतः हस्तं दहतीति दोषारोपणं केवलं अज्ञानं अथवा मूर्खता अस्ति स्वभावः प्रज्वलनम् एव यच्च तत् संस्पर्शं संस्पर्शं प्राप्नोति एव तथैव सर्वेषां कर्म कर्मणां प्रतिक्रियाः भवन्ति इति प्रकृतेः स्वतः सिद्धः नियमः अथवा तस्याः स्वभावः एव ईश्वरः भगवान् तस्मिन् विषये किञ्चित् अपि उत्तरदायि नास्ति कर्मणां कर्ता तस्य उत्तरदायि भवति कर्मणां कर्ता प्रतिक्रियाणाम् अपि उत्तरदायी भवति यतः ईश्वरेण कर्माणि न कृतानि ईश्वरः प्रतिक्रियाणाम् उत्तरदा उत्तरदायी भवितुं न शक्नोति केवलं जनाः एव कर्मणामपि च एतेषां कर्माणां कर्मणां परिणामं बोढुम् उत्तरदायिनः भवन्ति अत्र दत्तमस्ति यत् कर्माणि वयं कृतं तस्य कर्मफलस्य Uh, किमस्ति अनुभोक्तव्यम् इति अस्ति परन्तु जनाः चिन्तयन्ति अस्तु यत्किमपि पूर्वे कृतं वा तस्य निवारणार्थं वा अनेकानि कार्याणि कुर्वन्ति तादृशं परन्तु इदानीं तु तत् निश्चितं जातं यत्किमपि भवतु नाम कर्मस्य फलं uh, फलस्य यद् अनुभवः अस्ति तत् निवारयितुं कोऽपि नोति तद् अनुभवम् अस्माभिः करणीयम् एव तेन एव संस्कारस्य ना सम्भवति एवम् अस्ति चेत् इदानीमस्ति जनाः केचन जनाः यदा सुखम् अनुभवन्ति ते किमपि ईश्वरं प्रति दोषा अर्पणं न करोति परन्तु यदा दुःखम् अनुभवन्ति ते चिन्तयन्ति एतत् सर्वं किमर्थम् अहम् अनुभवामि एतस्य नाशनं किमर्थं न भवति अहं तु सर्वदा सत्कार्य एव भवामि अतः किमर्थं मम समीपे एतादृशदुःख एतादृशदुःखं वा वेदनां वा अहम् अनुभवामि एतादृशं कृत्वा ते दोसार् दोषार्पणं कुर्वन्ति भवन्तं प्रति चिन्तयन्ति एतत् किमर्थं यत्किमपि भवतु नाम कर्मणां कृतं पूर्वं परन्तु इदानीं तु हम सदकार्यं करोमि अतः किमर्थं दुःखं वा वेदनां वा अनुभवामि इति कृत्वा ते दूषयन्ति भवन्तं दूषयन्ति अन अनन्तरं किमस्ति यत्र ते सर्वदा किमपि यत्किमपि भव अनुभवन्तः ते अनुभवन्ति ते तत्सर्वं केवलं परमात्मनि एव क्रियेटेड् बै गाड् इति चिन्तयित्वा ते भगवन्तं दोषार्पणं कुर्वन्ति परन्तु एक एतादृशकार्यं यदा पश्यामः तत्तु केवलं मूर्खता अस्ति यः कर्मं करोति तेन एव प्रतिक्रिया भोक्तव्यं तेन एव तस्य अनुभवं करणीयम् इति ते विस्मरित्वा चिन्तयन्ति यत् किमपि भवतु नाम मया एतादृशप्रतिक्रियायाः अनुभवं न कर्तव्यं परन्तु तादृशं तत् प्रकृतेः नियमः नास्ति यद् अत्र उदाहरणमस्ति यदा बह्निः अस्ति तत्र वयं अस्माकं हस्तं तत् प्रति संस्पर्शे नयामः चेत् निश्चयेन तत्र हस्तस्य दहनं भवति एव तत्र वेदनापि भवति अतः यत्किमपि कर्ममस्ति तस्य प्रतिक्रिया भवति एव इदानीं तत्र वह्नेः दोषः नास्ति दहनस्य कृते वह्नेः दोषः किमपि नास्ति तन्नः तस्य अग्नेः प्रकृतिः अस्ति ज्वलनम् अतः तत्तु तत्र दोषः अस्ति यः तादृशकर्माणि कृतं तस्य फलं तेन एव भोक्तव्यम् इति मनसि स्थापनीयम् यत्किमपि कर्म कुर्मः तस्य प्रतिक्रिया अपि तेन एव भोक्तव्यं न तु यदा जनः अपि तादृशमपि चिन्तनमस्ति यद् ता, किमस्ति जनकः वा जननी ते चिन्तयन्ति मम पुत्रस्य किमपि अग्रगत्यार्थम् अहं किमपि यज्ञं वा हवन् वा तादृशं कार्यं कृत्वा तेषाम् अग्रगतिः भवति परन्तु तादृशं प्रतिक्रिया न भवति यः सर्वं करोति तेन एव तस्य प्रतिक्रियायाः अनुभवं करणीयम् इति अतः किमपि प्रकृतस्य नियमः अस्ति तत्तु पालनं करणीयम् अण्ड् यत्किमपि आगच्छति अस्माभिः कृतकर्मात् पूर्वजन्मनि वा तस्मिन् जन्मनि वा यत्किमपि आगच्छति तत्तु सहित्वा तस्य सोढनमपि वयमेव करणीयं कृत्वा अग्रे गन्तव्यं तेन एव अग्रगतिः भवति यद् तत्तु यद्भवती उक्तवती तेनैव वयं दग्धव्यजा भवामः अनन्तरम् अग्रगतिः अपि भवति तत्र किमपि दुःखं कर्तुं वा तस्य उपरि दोषम् आरोपयितुं तादृशं कार्याणि कृत्वा केवलं तु अस्माकम् अधोगतिः एव भवति अन्यथा तु अग्रगतिः न भवति अतः यत्किमपि कर्मणा भवतु तस्य प्रतिक्रियामपि येन ये कृतं तेन एव भोक्तव्यं तदेव सम्यछिन, सम्यछिन, एवा हा सम्यक् भगिनि समीचीनं समीचीनम् अहम् एवमेव वदामि वयं सर्वे जानीमः एव अत्र कर्म इति नपुंसकलिङ्गशब्दः अस्ति अतः कर्मणः इति वक्तव्यं कर्मकर्म कर्मकर्मणि कर्माणि इति तत्र तादृशरूपाणि सन्ति अस्तु अत्र अस्मिन् परिच्छेदे किम् अवगन्तव्यम् इति चेत् परमात्मा एव नियन्ता अस्ति सा एव अधिपतिः अस्ति तेन एव जगतः निर्माणं कृतम् सः एव तस्य चालनमपि करोति प्रकृते प्रकृतिद्वारा सः अस्य जगतः चालनं करोति तेन एव नियमानां रचनं रचना कृता तर्हि प्रकृतिः तादृशनियमानां प्रकृतिः प्रकृतिः एव पश्यति यद् सर्वे नियमानां पालनं कुर्वन्ति वा इति यथा उदाहरणार्थं किम किमपि उपरितः वयम् अधः पतामः चेत् तत्तु उपरि न गच्छति अधोभागे एव गच्छति गुरुत्वम् अस्ति इति कृत्वा अधोभागे आगच्छति इति तादृशम् एकः नियमः इति अन्य अन्यत् अन्यः नियमः अस्ति यद् कर्म कुर्मः चेत् तस्य तुल्यं विपरीतं प्रतिक्रिया अवश्यं भवति इति एकः नियमः तर्हि अस्माभिः एते एतेषां नियमानाम् अस्माकम् अवगमनं भवेत् अस्माभिः अवगन्तव्यं यत् एते नियमाः किमर्थं रचिताः इति चेत् केवलं कल्याणार्थं सर्वेषां कल्याणार्थमेव एते नियमाः सन्ति जनानां कल्याणार्थं नियमाः रचिताः नियमानां पालनं करणीयं यदि वयमिच्छामः वा न इच्छामः अनिच्छामः वा नियमानां पालनम् अस्माभिः करणीयम् अस्माकं कर्मणा कर्मणां प्रतिक्रिया अवश्यं भवति तेषां भोगः अवश्यम् अस्माभिः कर्तव्यः तर्हि कर्मशुभं वा भवतु अशुभं वा भवतु तद् तस्य प्रतिक्रिया या अस्ति सा अस्माकं हितार्थमेव अस्ति ता तादृशप्रतिक्रियाद्वारा अस्माकम् अग्रगतिः भवति अतः एव इदं जगत् विश्वविद्यालयः अस्ति अत्र वयं सर्वे किमर्थं स्मः इति चेत् केवलं शिक्षणं प्राप्तुम् तर्हि शिक्षणं प्राप्तुं यदा प्रतिक्रिया भवति चेत् तत्रापि शिक्षणम् अस्ति शिक्ष शिक्षणद्वारा अस्माकम् अग्रगतिः भवति यदि प्रतिक्रिया नास्ति तदानीं किमपि न अस्माकं शिक्षणं न भवति किमपि वयं न जानीमः तर्हि परमात्मना एतादृशनियमः रचितः अत्र सिस्टम् इति वयं वक्तुं शक्नुमः एका एका व्यवस्था अस्ति तया व्यवस्थया अस्माकं अग्रगतिः अवश्यमेव भवति खलु इति अत्र अस्ति परन्तु जनाः एतत् न अवगच्छन्ति अज्ञात्वा ते किमपि किमपि ते कुर्वन्ति परन्तु यत्किमपि परमात्मा करोति तत्सर्वं तु अस्माकं हितार्थमेव या व्यवस्था परमात्मना रचिता तेषां पालनमेव अस्माभिः कर्तव्यं तेषाम् उल्लङ्घनं वयं कुर्मः चेत् अस्माकम् इतोपि अधोगतिः एव भवति परन्तु जनाः न अवगच्छन्ति तत्र व्यवस्था कृता, कृता इति कृत्वा परमात्मनः उपरि दोषारोपणम् अपि वयं कर्तुं न शक्नुमः परमात्मा पक्षपाती अस्ति इति अपि वयं वक्तुं न शक्नुमः तर्हि एतेषां नियमानां रचना अस्माकं कल्याणार्थं एव अतः कर्मफलं यदा भवति तत्तु अस्माकं कर्मद्वारा एव भवति खलु अस्माभिः कर्म कृतम् इति कृत्वा तत्र प्रतिक्रिया भवति अतः परमात्मनः उपरि दोषार्पण आरोपणं समीचीनं नास्ति तर्हि अत्र विषयद्वयम् अवगन्तव्यं यद् कर्म तस्य दायित्वम् अस्माकम् उपरि अस्ति परमात्मनः उपरि नास्ति यतोहि अत्र नियमाः सन्ति परमात्मना नियमाः रचिताः द्वितीयम् अत्र या व्यवस्था वर्तते सा व्यवस्था कल्याणजनकं कल्याणजनिका वर्तते सर्वेषां कल्याणं हितम् एव अत्र अन्ततो विवक्षा अस्ति लक्ष्यमस्ति इति सर्वदा स्मर्तव्यम् अस्तु तर्हि अग्रिमपरिच्छेदं प्रति गच्छामः किं किमर्थं किम द्विवारम् आगच्छति ओके अत्र पठतु भगिनि प्रार्थना इति उक्तौ गंभीरतया अनुग्रहस्य याचना कतिपय कतिपयलाभार्थम् परमात्मानम् उद्दिश्य गम्भीरा याचना इति अपि अर्थः कश्चन किमपि प्राप्तुम् ईश्वरम् प्रार्थयति अर्थात् यद्वस्तु तस्य पार्श्वे नास्ति अथवा नास्ति इति चिन्तयति तत्वस्तु प्राप्त स ईश्वर प्राथय दा शक्नो तर इच्छा सर्वा पूरीताश्वास कशन अग्रह प्राप्त ईश्वर याचते अथवा याचनया कई प्रबोध प्र, प्रबोधयितुम् ये इच्छति येन स्वस्य पार्श्वे यानि वस्तूनि न सन्ति तानि प्राप्तुम् शक्यन्ते एतासाम आवश्यकतानाम् पूर्तये ईश्वरस्य इच्छाम् जागर्तुम् कस्यचित् प्रयासः सावधानतया तर्कसङ्गतचिन्तनेन च ईश्वरस्य कृते स्मरणम् इव न दृश्यते किम् किमर्थं चेत् ईश्वरः कस्मैचित् किमपि दातुं शक्नोति परन्तु सः तं तस्मात् वञ्चितवान् इति स्मरा स्मरणार्थम् मरार, अस्ति इति भाति अन्यथा किमपि वस्तु प्राप्तुं प्रार्थनया ईश्वरम् स्मारयितुम् अथवा दानार्थं तस्मिन् इच्छाम उत्तेजितुम् आवश्यकता न यथा उदाहरणार्थम् यदि कस्यचित् पुरुषस्य कृते धनस्य आवश्यकता अस्ति तर्हि सः पुरुषः एवं चिन्तयति ईश्वरम् एवं दातुं शक्नोति इति विश्वासेन स तस्मै धनस्य अनुग्रहार्थं प्रार्थयति स्म इदानीं दत्तमस्ति ततः अग्रे अपि किञ्चित् किम् किम किसा प्राथना ईश्वर दोष न स एव दर्शय यनम दा शनोति स सचन धना स्थाप ईश्वर एव तस्य दोषी स्यात् ईश्वरपक्षपाती इति कारणेन मां धनात् वञ्चयति इति सम्यक्तया दर्शयति कश्चन धनार्थम् ईश्वरम् प्रार्थयित्वा अथ प्रार्थना अथवा ईश्वरात् अनुग्रहस्य याचना केवलम् एकमात्रदात्रे तस्य अनुग्रहविस्तरणे दोषान् सूचयति एतत् केवलं तस्मिन् अग्रे अपि अस्ति तस्मिन् ईश्वरे अपक् अपक्षपातस्य अभावम् कल्पयति अतः एव सः ईश्वरः काञ्चन अतिधनवत् काञ्चन अतीव अतीव अती दर् अतीव दरिद्रवत् अतः च कृतवान् इति दोषी भवति ईश्वरस्य अनुग्रहार्थं प्रार्थना तु केवलं तस्य विरुद्धं पक्षपातस्य आरोपप्रदर् प्रदर्शनार्थम् एव भवति यदा प्रार्थना तादृशम् निष्कर्षम् प्रति नयति तदा अनुग्रहस्य याचनातु तु एव यः कर्म करोति सः परिणामम् अपि वहति एव अतः ईश्वरे पक्षपातम् इति दोषम् आरोपयित्वा परिणामात् कोऽपि पलायितुं न शक्नोति अस्तु सो so, ये कर्माणि अस्माभिः कृतानि भवन्ति तेषां यत् कर्मफल भवति कर्मफलानि रूपेण अस्माभिः प्राप्तानि तेषां यत् कोऽपि फल अस्ति दुःखेन वा सुखेन अस्माभिः एव भोक्तव्यं भवति ये के इति चिन्तयन्ति यदि अहं दुःख मम दुःखम् अस्ति तस्य निवारणार्थम् अहम् ईश्वरं प्रार्थना करोमि तस्य दुःखं दुःखस्य निवृत्तिः भवति या मम यदि अहं दरि दरिद्रा अस्मि मम कृते किञ्चित् केचन वस्तूनि एता भावस्ति या अहम् दुख, दर, इच्छामि मम अतीव इच्छा तं वस्तु प्राप्य तत्र अहं मन्दिरं गत्वा ईश्वरं प्रार्थ प्रार्थना करोमि इति मम ईश्वर प्रार्थना स्वीकरोति तस्य फलं मां ददाति किन्तु इति तु केवलं भिक्षु इव याचना अस्ति इति प्रार्थना तु नास्ति प्रार्थना अस्ति इति प्रार्थना नास्ति इति केवलं याचना अस्ति बेगरी यदा वयं वदामः दावा, इति अस्ति किन्तु इति अस्माभिः अवगन्तव्यं यत् कर्म अहं करोमि तस्य तत् आधारेण एव यत् अहं प्राप्नोमि इति अस्ति प्रकृतेः नियमः यत् इति अस्माभिः अवगमनं भवति तो वयम् ईश्वरं प्रति कोऽपि दोषं न कुर्मः इति न वयं भावयामः भावयामः मम प्रतिवासिनः धनिक अस्ति सः कवि कदापि मन्दिरमपि न गच्छति किं प्रार्थनामपि न करोति सः धार्मिकः बहु सुन्दर तस्य पा पार्श्वे कार्यानम् अस्ति इति यदि वयं अस्माभिः मनसि मत्सरम् आगच्छति तत् निवारणम् ईश्वरस्य प्रार्थना न भवति इति दत्तमस्ति अत्र अस्माभिः किं कर्तुम् अस्माकं कर्म शुभकरणीयम् इति सेवा करणीयम् इत, अनेन एव यत्कर्मफल भवति तस्य सहनशक्तिः अस्माभिः प्राप्यते किन्तु तस्य फलस्य न्यूनम् इति न भवति किन्तु तस्य अस्माभिः सरलता भवति तेषां सह नातं यद् दुःखं यद् आगच्छति इति इति अस्ति वयं दोषं न दातुं शक्नुमः ईश्वरम् इति अस्माकं तर्क इति चिन्तनं तर्कस्य चिन्तनं दोष दोषपूर्वम् अस्ति सम्यक् भगिनी समीचीनम् समीचीनम् इत्युक्ते अयं परिच्छेदः बहु मुख्यः अस्ति मुख्यपरिच्छेदः अस्ति अत्र यः विषयः उक्तः अस्ति सः बहु विषयः अस्ति तर्हि प्रथमं तु परमात्मा सर्वज्ञः अस्ति सः सर्वं जानाति द्वितीयं तु सः हितकारी अस्ति कल्याणजनकः अस्ति सः सर्वशक्तिमान् अपि अस्ति सः तर्हि सर्वदा सः अस्माकं हितार्थमेव कार्यं करोति परमात्मा यदा वयं प्रार्थनां कुर्मः तदानीं किं किं प्रदर्शयति इति चेत् वयं किं चिन्तयामः यत् परमात्मा एतेषु त्रिषु किमपि नास्ति इति चिन्तयामः सः सर्वज्ञः नास्ति इति चिन्तयामः स कल्याणकारी नास्ति इति चिन्तयामः अथवा सर्वशक्तिमान् नास्ति इति चिन्तयामः इति तदर्थमेव वयं प्रार्थनां कुर्मः खलु यदि सर्वज्ञः यदि वयं वयं चिन्तयामः स स सर्वं जानाति तर्हि किमर्थं प्रार्थना करणीया यदि स सर्वं जानाति तर्हि यद् उचितं तदेव सः करोति तर्हि स सर्वं जा यद् वयं जानीमः तस्मादपि अधिकं सः जानाति अस्माकं जीवनस्य विषये अतः यत् यद् वयं प्रार्थयामः मम कृते एतद् भवतु इति वयं प्रार्थयामः तस्य तद् तत्र तु अस्माकं ज्ञानम् अल्पमेव परन्तु तस्मादपि अधिकं ज्ञानं तस्य पार्श्वे अस्ति अतः यदि सः चिन्तयति इदानीं तद् वस्तु भवतः कृते मास्तु इति चिन्तयति इदं वस्तु अनुचितम् भवतः कृते इति चिन्तयति चेत् तदानीं न ददाति तर्हि किमर्थम् अस्माभिः प्रार्थनीयं इदं वस्तु ददातु इति किमर्थं प्रार्थनीयं खलु यदा वयं प्रार्थयामः तदानीं वयं चिन्तयामः यत् सः सर्वज्ञः नास्ति इति खलु सः सर्वज्ञः नास्ति इति कृत्वा एव अस्माभिः वक्तव्यं यद् हे परमपुरुषः मम कृते एतद् ददातु भवान् भवान् न जानाति मम कृते एतद् अवश्यकमस्ति भवान् न ददाति इदानीं ददातु भवान् इति वयं प्रार्थयामः खलु अतः नो चेत् वक्तव्यं वदनस्य आवश्यकता नास्ति यदि सः जानाति तद् तर्हि प्रार्थनायाः आवश्यकता नास्ति परमात्मा सर्वशक्तिमान् अस्ति तर्हि सर्वशक्तिमान् अस्ति सः सर्वं जानाति सर्वं करोति चेत् तदानीं तदानीं तत्र प्रार्थनायाः आवश्यकता नास्ति तर्हि यदि वयं चिन्तयामः यत् सः सर्वशक्तिमान् नास्ति इति अस्माकं प्रार्थनायाः पूर्तिं न करोति इति इति कृत्वा एव वयं पुनः पुनः प्रार्थयामः मम प्रार्थनया पूर्तिं पूर्तिं न करोति इति कृत्वा पुनह पुनः पृच्छामः ददातु ददातु ददातु इति खलु तर्हि परमात्मनि त्रयः गुणाः अपि सन्ति सर्वशक्तिमान् अस्ति सर्वज्ञः अस्ति कल्याणकारी अस्ति खलु तर्हि एवमस्ति चेत् तर्हि तस्य मनसि अस्माकं हितमेव अस्ति यदस्माकं कृते उचितमस्ति तदेव सः ददाति सः एव तदेव करोति तदेव सः कुर्वन् अस्ति तदेव सः पूर्वमपि कृतवान् इदानीमपि करोति अग्रे अपि तदेव करिष्यति अतः अस्माकं हितं यदस्ति तदेव सः करोति अतः पुनः पुनः प्रार्थनीयमिति किमपि न आवश्यकं तर्हि यदा प्रार्थनां कुर्मः तदानीं वयं दोषारोपणं कुर्मः तस्य उपरि भवतः यद् कार्यमस्ति तद् भवान् सम्यक् न करोति भवान् न जानाति इति कृत्वा एव अहं वदामि भवान् एवं करोतु इति मम कृते यद् अहं जानामि अधिकं जानामि भवतः भवतः अपेक्षया भवान् सर्वज्ञः नास्ति खलु इति एव दोष आरोपणं तस्य उपरि तर्हि इत्युक्ते तस्य दायित्वं सः न पूरयति इति अर्थः अस्ति यदा वयं किमपि पृच्छामः तदानीं दोषारोपणम् अस्ति यद् मम कृते दातव्यमासीत् भवान् दत्तवान् इति तत्र दोषारोपणम् अस्ति तत्र पुनः पुनः तस्य स्मरणस्य उद्भावः भवान् न करोति न करोति इति कृत्वा एतत्तु सर्वदा अन् अनुचितम् अस्ति अतः यदि परमात्मा सर्वं जानाति इति वयम् अवगच्छामः सर्वशक्तिमान् सर्वदा अस्माकं हितार्थं सः कार्यं करोति तदानीं प्रार्थनायाः आवश्यकता एव नास्ति यदुचितं सः करोति अतः यदस्माकं कृते आवश्यकं सः अस्माकं हितं किम् इति सः जानाति अतः अस्माकं यद् अल्पज्ञानं वर्तते तद् आधारीकृत्य वयं प्रार्थनां कुर्मः तर्हि तत्र इदं जगत्तु स्वयमेव अस्ति परमात्मनः आदा आधारं स्वीकृत्य एव इदं जगत् वर्तते अतः सः सर्वं जानाति अतः यदा साधनां कुर्मः तदानीं कम् तत्र सम्पूर्णतया भिन्न रीतिः वर्तते साधनायां प्रार्थना अपि साधना अनयोः भेदः कः इति चेत् प्रार्थनायां न जानाति अतः मम कृते ददातु साधना इति भिन्न भिन्ना रीति तत्र तत्र किमपि वयं प्र प्रार्थयामः मम कृते ददातु इति न प्रार्थयामः यथा वयं चिन्तयामः तद्वत् वयं भवामः तर्हि परमात्मनि विलीनः अस्ति अस्माकं मनः इति कृत्वा मनः परमात्मनः मन मनसि अनुभूतिः भवति परमात्मनः अनुभूतिः भवति अतः साधना भिन्ना स्तुतिः प्रार्थना इति भिन्ना स्तुतिः प्रार्थना इति उच्चविषयः नास्ति साधना इति उच्चविषयः अस्ति सम्पूर्णतया सुन्दरा सुन्दरीतिः वर्तते येन अस्माकं जीवनस्य लक्ष्यं किम् इति वयं ज्ञातुं शक्नुमः अस्माकं मनसः परिवर्तनं भवति तर्हि तत्र यादृशचिन्त चिन्तनं भवति तद्वत् वयं भवामः खलु अतः प्रार्थना अपि च साधना अनयोः भेदः कः इति सम्यक्तया अस्माभिः अवगन्तव्यम् इति अत्र अस्मिन् परिच्छेदे दत्तं वर्तते अत्र कोऽपि प्रश्नः अस्ति वा भगिनि तर्हि प्रार्थना एव न करणीयं वा प्रार्थना एव न करणीयम् प्रार्थना इत्युक्ते कः अर्थः कः किमपि याचना एव प्रार्थना वा अन्यथा प्रार्थना अन्य किमपि अस्ति प्रार्थना इत्युक्ते याचना एव तत्र प्रार्थना इत्युक्ते ब भगवतः स्तुतिं किमर्थं कुर्मः स्तुतिं के सामान्यतया प्रायेण जनाः भगवतः स्तुतिं यत्र कुत्रापि पश्यतु भगवतः स्तुतिं किमर्थं कुर्वन्ति इत्युक्ते अन्ततो गत्वा किमपि इच्छन्ति मम कृते एतद् भवतु इति कृत्वा एव सर्वदा प्रार्थनां कुर्वन्ति स्तुतिं कुर्वन्ति तदर्थमेव स्तुतिं कुर्वन्ति यत्र कुत्रापि परन्तु साधनायाम् एतादृशं नास्ति साधनायां वयं न प्रार्थयामः परमात्मा मम कृते एतद् ददातु इति न प्रार्थयामः साधनायां तत् अस्माकं मनः तु परमात्मनि विलीनं वर्तते तत्र याचना नास्ति प्रार्थना इत्युक्ते प्रार्थना इत्युक्ते याचना इति एव प्रार्थनायाम् अन्यत् किमपि नास्ति किं भवति किम् अन्यथा चिन्तयति वा यदा किमपि ज्ञानवर्धनं भा वा अन्यथा तु किमस्ति तादृश अहङ्कारस्य नाशनं भवतु वा अन्यथा अन्धकारात् गमनं तमस अमृतं प्रति गमनं तादृशं किमपि प्रार्थना अपि भवितुम् अर्हति वा अस्माकं चिन्तने चित्तसिद्धिं कारयतु तादृशमपि प्रार्थना भवितुम् अर्हति खलु न वा न साधनाद्वारा स्वयमेव भवति साधनया तत्सर्वं स्वयमेव भवति अतः तद् तदर्थं प्रार्थनायाः आवश्यकता नास्ति इत्युक्ते तत्तु प्रार्थना इत्युक्ते तद् एतादृशप्रार्थना इत्युक्ते अन्धकारात् प्रकाशं प्रति नयतु इति तादृशप्रार्थना तादृशप्रार्थना उचिता प्रार्थना तत्तु प्रार्थना इति एव न वदामः तत्र प्रार्थना इति एव न वदामः किं भवति न यथा असतोम सत्कमय अस्माभिः इति स्मरणं भवति न मम कर्तव्यं किम् अस्ति अहं किं वदामि किं करोमि इति भिन्नम् अस्ति वारं वारं यदि वदामि तदानीम् एव मम कर्मणि अपि तत् आगच्छति शनैः शनैः हा इत्युक्ते सत्यम् इत्युक्ते प पश्यतु मया पूर्वमपि एकस्मिन् वर्गे मया उक्तं यदा परमात्मा परमात् परमात्मना यदा प्रष्टव्यं तदानीं किं प्रष्टव्यम् इति चेदेकमेव प्रष्टव्यं भक्तिं ददातु इति एव प्रष्टव्यम् अन्यत् किमपि न प्रष्टव्यं हा भक्तिं ददातु इति वयं प्रष्टुं शक्नुमः तद्विहाय अन्यत् किमपि प्रष्टुं न शक्नुमः भक्तिं <San -gayani> ददातु तत्र मार्गं प्रदर्शयतु भक्तिं ददातु इति तादृशं वयं प्रष्टुं शक्नुमः परन्तु तत् प्रार्थना इति न वदामः यदा सामान्यतया प्रार्थना इत्युक्ते तत्र अहम् अहं भवतः स्तुतिं करोमि मम कृते किमपि ददातु इति एव विषयः तदर्थमेव जनाः प्रार्थनां कुर्वन्ति लोके जनाः मूर्तेः अर्चनां किमर्थं कुर्वन्ति सर्वदा तत्र इष्टकामसिद्ध्यर्थम् इति एव अस्ति खलु इष्टकामसिद्ध्यर्थं पुत्र वा भवतु धनं वा भवतु इति सर्वदा तत्र तद् यः अर्चकः अस्ति सः अपि तदेव वदति इष्टकामसिद्ध्यर्थमेव पुत्रलाभः भवतु धनलाभः भवतु इति तदर्थं सर्वं वदति परन्तु यदा परमात्मा परमात्मना प्रष्टव्यं किं प्रष्टव्यम् इति चेत् भक्तिः तावदेव भक्तिः अथवा सोपानानि सन्ति साधक भगवतम् इति प्रार्थना करोति एतं ददातु ददातु तदनन्तरं तस्य तस्य मन परिवर्तनम् आगच्छति अहं किं करोमि इति तत् तत् परिवर्तनं भवति इति प्रथमम् अर्थार्थी अस्मि यत् मम अर्थं कित् तदनन्तरं Uh, अर्थार्थी अपि अस्ति इति भगवद्गीतायाम् अस्ति चत्वारः प्रकारभक्ताः सन्ति अर्थार्थी अर्थार्थी अर्थार जिज्ञासु चतुर्थम् अस्ति यत् स्वस्य स्वयम् इति मम माम् अर्पितं करोति इति uh, सो इति सोपानानि शनैः शनैः प्रार्थना प्रार्थना यत् वयम् स्वस्य कृते इच्छापूर्ति कृते वयं कुर्मः किन्तु भगिनी एक भगिनी भगिनि तत्र प्रार्थनया अस्माकं प्रगतिः भवति इति नास्ति भगिनि प्रार्थनया प्रगतिः न भवति अस्माकं सङ्घर्षेण प्रगतिः भवति जगति यदा वयं सङ्घर्षं कुर्मः सङ्घर्षेण तत्र अग्रे गत्वा गत्वा तत्र अस्माकं नयनम् उद्घाटितं भवति तदानीं तत्र आध्यात्मिकमार्गे वयं प्रवेशं प्राप्नुमः परन्तु आदौ प्रार्थना करो प्रार्थनां करोतु तद उचितम् इति नास्ति इति तत्र योगमार्गे एवमेव वयं वदामः तत्र अन्यत्र अन्यत् किमपि वक्तुं शक्नुमः परन्तु अत्र वयं किं वदामः इति चेत् अत्र प्रार्थनायाः आवश्यकता नास्ति प्रार्थना इत्युक्ते दोषारोपणं भवान् भगवान् भवान् परमात्मा भवान् न जानाति इति कृत्वा अहं भवान् स्मारयामि भवान् ददातु इति तद् तदेव प्रार्थना अस्ति सा एव प्रार्थना अस्माकं क्रमेण विकासः भवति तत्तु समीचीनमस्ति तस्य नामकरणं यत्किमपि वयं दद्मः तत् तद् तत भवतु नाम परन्तु सङ्घर्षेण अस्माकं प्रगतिः भवति इत्युक्ते अनुचितं कुर्मः पापकर्म कुर्मः तेन तत्र दण्डः भवति दण्डः भवति चेत् तत्र ज्ञानम् उदेति एवं रीत्या अग्रगतिः भवति ए एवं पशुजीवनं जीवित्वा जीवित्वा जीवित्वा जीवित्वा कदाचित् नयनम् उद्घाटितं भवति तदानीं वयं वदामः इदानीम् इतः अग्रे पशुजीवनं मास्तु इति तथा वयं वदामः भगवद्गीतायां भवती वदति भिन्नरीत्या तत्र दत्तमस्ति परन्तु अन्ततो गत्वा विषयः कः इति चेत् प्रार्थनया याचनया लाभः न भवितुम् अर्हति इत्येव विषयः अस्ति आदौ मनुष्याः अज्ञानवशात् प्रार्थनां कुर्वन्ति मम कृते ददातु ददातु ददातु यतोहि ते पशुजीवने व्यस्ताः सन्ति शूद्रजीवने व्यस्ताः सन्ति इति कृत्वा अन्यद् न जानाति यतो यतोहि पशुजीवनं ज्ञातमार्गः अस्ति अतः पशुजीवने यदा ते व्यस्ताः भवन्ति तदानीं प्रार्थनां कुर्वन्ति मम कृते एतद् ददातु ददातु ददातु इति यदा नयनम् उद्घाटितं भवति तदानीम् इतः अग्रे पशुजीवनं मास्तु इति यदा निर्णयः भवति तदानीं अवगच्छन्ति यदा साधकाः भवन्ति तदानीं ते अवगच्छन्ति प्रार्थनया कोपि लाभः नास्ति इदानीं प्रार्थनाद्वारा अहं किमर्थं प्रार्थनां करोमि स्वार्थभावनाया एव अहं करोमि सामान्यतया स्वार्थभावनाय भावनाया भावनाया एव भावना प्रार्थनां कुर्वन्ति इति कृत्वा तया न कोऽपि लाभः परन्तु यथा उक्तं केवलं भक्तिं ददातु अथवा मम कृते उचितं मार्गं ददातु इति तादृशं वयं परमात्मनं पृच्छामः चेत् तत्तु उचितमस्ति तद्विहाय अन्यत् किमपि वयं वदामः प्रार्थना प्रार्थनारूपेण तद् उचितं नास्ति तत्तु दोषारोपणम् किं सरला भगिनी साधु अस्ति किन्तु अहं यदि मनुष्य पशुजीवनम् अपि चरसि तदापि न कोऽपि अन्यं प्रति न गच्छति मां ददातु दा किन्तु भगवतमिति करोति केनापि कारणेन यदि वा भगवतं स्मरति इति अपि न स्मरणात् इति बेटर् अस्ति भगिनि न न अत्र स्मरणं भगवतः स्मरणं केवलं भगवतः स्मरणं नास्ति केवलं तत्र तस्य इच्छायाः पूर्त्यर्थं सः स्मरति इदानीं तत्र यः अधिकारी अस्ति कार्यालये इदानीं किमपि आवश्यकं चेत् तत्र अधिकारिणः स्मरणं भवति तदानीम् अधिकारिणः किमपि ददाति इत्युक्ते ऋणम् आवश्यकम् इति, इति चिन्तयतु तावत्पर्यन्तम् अधिकारिणः स्मरणं न भवति यदा ऋणम् आवश्यकं तदानीम् अधिकारिणः समीपे गत्वा अधिकारिणः करो स्मरणं करोति स्मरणं कृत्वा पृच्छति ददातु इति तेन तेन कः लाभः अधिकारिणः स्मरणं किमर्थं कृतम् तेन अधिकार अधिकारी सन्तुष्टः भवति वा भवान् तस्य स्मरणं कृतं ऋणस्य कृते इति कृत्वा अधिकारी सन्तुष्टः भवति वा इति चेत् न एवं प्रार्थनया यदा परमात्मनः स्मरणं वयं कुर्मः अस्माकं स्वार्थभावनया तदानीं तेन परमात्मा परमात्मनः प्रीतिः न भवति परमात्मनः सन्तो सन्तोषः भवति खलु सः सर्वदा हितकारी अस्ति अतः अन्यथा चिन्तयति परमात्मा परन्तु तेन अस्माकं महान् लाभः भवति इति नास्ति प्रार्थनया अस्माकं महान् लाभः भवति इति नास्ति तादृशशिक्षा तु उचितशिक्षा नास्ति केवलम् अस्माकम् अस्माकं हितार्थं वयं परमात्मनः स्मरणं कुर्मः चेत् अपि लाभः भवति इति नास्ति उचितशिक्षा नास्ति किन्तु किं चिन्तयामि इति अपि हानिकारः नास्ति कम्प्लीट्ली कारणकी यदि इवन् किञ्चित् अपि भगवतं स्मृति करोति तदापि तस्य मनसि किञ्चित् क्षणम् अपि शान्तं भवति यद् मनः शान्तं भवति तत् अपि दुःखदायकं न परन्तु एवमेव न चिन्तयति भगिनी तत्र तत्र सर्वदा तत्र ओ हे परमात्मा मम कृते एतद् ददातु हे परमात्मा मम कृते एतत् ददातु कुत्र अस्ति शान्तिः तत्र भगिनीकभक्तिः शान्तिः कदा कथं भवितुमर्हति इति अत्र अस्माकं चर्चा इदानीं जाता अत्र आचार्यजी किमपि वदति वा इति पश्यामः मम कृते तु एतद् एतादृशप्रार्थना उचितप्रार्थना नास्ति तत्र क्षणपर्यन्तं यत् भवती भव वदति इति सम्पूर्णतया अहं स्वीकरोमि किन्तु अहं किम् उक्तवती यत् यत् साधु यत् पशुजीवनं चालयन्ति ते यदि भगवतम प्रार्थना तेषाम् इच्छायां पूर्तिकृते कर् कुर्वन्ति तदपि इति न यद्भवति वदति यद् उक्तवती उक्त तद् तदपि भक्तिः अस्ति परमात्मनः स्मरणं करोति तदर्थमेव तत्र राज यथा भगिनी उक्तवती राजसिकभक्तिः तद् ता वस्तुतः सात्विकीभक्ति राजसिकभक्ति तामसिकभक्ति इति भक्तिः एव नास्ति वस्तुतः नास्ति शन्नै शन्नै तामसिक् राजसिक् भवति राजसिक् सात्विक् भवति तत्तु अस्ति तत्तु सङ्घर्षेण तत भवति अवश्यं भवति सङ्घर्षेण तद् भवति सङ्घर्षेण कालान्तरेण भवति त तामसिकभक्तिं करोति चेत् तदा तदानीं तत्र तदर्थं तत्र कर्मफलमपि भवति तद् तदनुगुणं मम शत्रोः मरणं भवति इति प्रार्थनां करोति चेत् तत्तु हितकारी नास्ति अतः तदर्थं पापमपि भवति तस्य यदा पापस्य अनुभवः भवति भोगः भवति तदानीं मनः वर्धते तत्र अग्रगतिः भवति तत् सत्यम् अग्रगतिः भवितुमर्हति परन्तु एतादृशप्रार्थना लाभदायकम् अस्ति इति, इति प्रार्ण प्रार्ण अस इस, इस, न यतोहि तामसिकप्रार्थना करोति चेत् वयं स्वस्य जीवनस्य व्यर्थम् इति कुर्मः इति प्रार्थना कृ यदि आरम्भतैः वयं सम्यक् जानीमः किं कर्तव्यं तत् जीवनं सफला भवति सफलं भवति इति तु निश्चयेन यद्भवती उक्तवती इति इच्छति तदपि भक्तिः इति एव वदामः भक्तिरूपेण सामसिकभक्तिः इति वयं वदामः भक्तेः पञ्च पञ्चद विभागः अस्ति खलु तर्हि भक्तिरूपेण एव वयं वदामः परन्तु वास्तविकभक्तिः नास्ति केवलभक्तिः नास्ति तत् खलु अस्तु परमात्मा अस्ति इति सः अङ्गीकरोति परमात्मा अस्ति त्रिषु त्रिषु भक्तिषु अपि तत्र परमात्मा अस्ति इति सः अङ्गीकरोति परन्तु तत्र परमात्मनः चिन्तनं नास्ति तेन परमात्मनः प्राप्तिः न भवति तावदेव एतादृश क्तिद्वारा परमात्मनः प्राप्तिः तु न भवति mm. mm. यथा वयं पठितवन्तः चत्वारि जनाः सन्ति सन्ति ते परमात्मा मन्य न मन्यन्ते एव पुष्यजीवने चलन्ति तेषां यदि किमपि कि परमात्मना एव एका शक्तिः अस्ति इति अस्ति अस्ति तत् अस्माकं किम् अस्ति भगिनी सरला भगिनी अस्माकं बाल्यकालात् प्रार्थनायां बहु मान्यता वर्तते खलु अस्माभिः तत्र एव एतादृशी अस्माकं शिक्षा वर्तते प्रार्थनां करोतु करोतु इति तत्र ता तादृश अभ्यासः अस्ति अतः यदा वयं प्रार्थनां कुर्मः तत् सम्यक् नास्ति इति अस्मा वयं स्वीकर्तुं न शक्नुमः किमर्थं मया तु एतादृश बहुकालं कृतं परमात्मनः चिन्तनं कृतं प्रार्थना कृता तत्र प्रार्थना कृत्वा तत्र एतत् ददातु इति अपि मया तत्र योजितं तर्हि किमर्थम् अनुचितम् इति स्वीकर्तुं मम मनः नास्ति इति तु सत्यं तद् अस्ति यतोहि तादृश अभ्यासः अस्ति लोके सर्वत्र परन्तु अत्र यः विषयः प्रस्तापितः अस्ति यद् परमात्मा सर्वं जानाति सर्वज्ञः अस्ति चेत् किमर्थम् अस्माभिः प्रष्टव्यं तत्तु सत्यमस्ति खलु आम् खलु इति ताव तावदेव अत्र तत्र अत्र अस्माभिः चिन्तनीयम् अत्र यः विषयः उक्तः अस्ति तत् समीचीनम् अस्ति वा नास्ति वा इति अस्माभिः वयं चि गाढरीत्या चिन्तयामः चेत् वयं सम्यक्तया अवगन्तुं शक्नुमः इति उत्तमं यत यत् hmm. वयं पदवी अस्ति यत् वदामि इति एकम् अध्यो न तथा नास्ति भगिनी सर्वे वयं सर्वे तत्र साधकाः स्मः वयं दिशि वयम् अग्रे गच्छामः सर्वदा अग्रे गन्तव्यं तत्र पृष्ठभागे न द्रष्टव्यं सर्वदा आगे बडो आगे बडो च तद्भवतु नाम खलु आम् अतः क्लेशः नास्ति चिन्ता नास्ति पूर्वं यत् कृतं तद् भवतु नाम इतः अग्रे यत् करणीयं तद् वयं जानीमः तदनुगुणं गन्तुं प्रयासं कुर्मः खलु तावदेव अत्र अस्तु तर्हि अत्र स्थगनं कुर्मः वा समीचीनं समीचीन धन्यवादः